ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेन्टि टु देवगृहानुकीर्तनं सूत उवाच स्वायम्भुवनिसर्गे दुव्याख्यातान्यन्तराणि च भविष्याणि च सर्वाणि तेषां वाक्ष्याम्यनुक्रमम् यदच्छ्रुत्वा तु मुनयः पप्रच्छु रोमहर्षणं सूर्याच्चन्द्रमसोचारं गृहाणां चैव सर्वशः ऋषयकूचुः भ्रमन्ति कथमेतानि ज्योतिषि दिवमण्डलम् अव्यूहेन च सर्वाणि तथैवासङ्करेण वा भ्रामयते तानि भ्रमन्ते यदि वा स्वयं ये तद्वेदितुमिच्छामस्तन्नो निगदसत्तमसुद उवाच भूतसम्मोहनं ह्येदद्वदतो मे निबोध प्रत्यक्षमपि दृश्यं च सम्मोहयदि यत्प्रजाः योऽयं चतुर्दिशं पुच्छे शैषु मारे व्यवस्थितः उत्थानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि सवै वै भ्रामयदे नित्यं चन्द्रादित्यौ ग्रहैः सह भ्रमन्दमनुगच्छन्ति नक्षत्राणि च चक्रवद ध्रुवस्य मनसा च सौ सर्पदे ज्योतिषाङ्गणः सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह पादानीकमयैर्बन्धैर्ध्रुवे वै तेषां योगश्च भेदश्च कालश्चारस्तथैव च अस्तोदयौ तद्धोत्पादा अयने दक्षिणोत्तरे विशुवद्ग्रहवर्णाश्च ध्रुवात् सर्वं प्रवर्तते वर्षा कर्मो हिमं रात्रिस्सन्ध्या दिनं तथा शुभाशुभं प्रजानां च ध्रुवात् सर्वं प्रवर्तते ध्रुवेणाधिष्ठितश्चैव सूर्योपो गृह्य वर्षति तदेश दीप्तकिरणसकालाग्निर्दिवाकरः परि क्रमाद्वि परिवर्तक्रमाद्विप्राभिरालोकयन् दिशः सूर्यकिरणजालेन वायुयुक्तेन सर्वशः जगदो जलमादत्ते कृष्णस्य द्विजसतमाः आदित्यपीदं सकलं सोमः सङ्क्रमते जलम् नाडी वायु लोक नडीर्वायुयुक्तालोकधारा प्रवर्त योम्रवदे ह्यंबु तषति मेखावायु विखाते नसृजंधी जलम भुविषिप्य पद चा ननाशं उदगत स्ति तदेव परिवर्तते सन्धारणार्थं लोकानां मायैषा विश्वनिर्मिता अन्या मायया व्याप्तं त्रैलोक्यं सचराचरं विश्वेशो लोककृदेव सहस्राक्षः प्रजापतिः राधाकृष्णस्य लोकस्य प्रभविष्णोर्दिवाकरः सर्वलौकिकमम्भो यत्तत्सोमान्नभसच्युतं सोमाधारं जगत् सर्वमे दत्तभ्यं प्रकीर्तितं सूर्यादुष्णं निःस्रवदे सोमाच्छिदं प्रवर्तते शीतोष्णवीर्यौ द्वा वेदौ युक्त्या धारयदो जगत् सोमाधारा नदी गङ्गा पवित्रा विमलोदका भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः सर्वभूतशरीरेषु ह्यापो तेषु सन्दह्यमानेषु जङ्गमस्तावरेषु च धूमभूदस्तु ताह्यापो निष्क्रामन्तीह सर्वशः तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतं तेजोर्कः सर्वभूदेव्यादत्ते रश्मिभिर्जलं समुद्राद्वायुसंयोगाद्वहं त्यापो गभस्तयः सञ्जीवनं च सस्यानामम्भस्तदमृदोपमम् तदस्त्वर्तुवशात्काले परिवर्त्य दिवाकरः यच्छत्यापो हि मे केभ्य शुक्लाशुक्लार्गभस्तिभिः अभ्रस्ताः प्रपतन्त्यापो वायुना समुदीरिताः सर्वभूतहितार्थाय वाय। वायुमिश्रासमन्तदः ततो तदो षण्मासान् सर्वभूतविवृद्धये वायव्यं स्तनितं चैव वैद्युतं चाग्निसम्भवम् मेघनाच्च मिहेधातोर्मेघत्वं व्यजयन्ति हि न भ्रश्यन्ति यतश्चापस्तदभ्रं कवयो विदुः मेघानां पुनरुत्पत्तिस्त्रिविधा यो निरुच्यते आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः त्रिथामेकास्समाख्यादास्तेषां वक्ष्यामि सम्भवम् आग्नेयास्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्तनं शीतदुर्दिनवादाये स्वगुणास्ते व्यवस्थिताः महिषाश्च वाराहाश्च मत्तमादङ्गरूपिणः भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च जीमूदा नाम ते मेखाख्येदेभ्यो जलधारा विलम्बिनः मूकमेखामहाकाया आवहस्य वशानुगाः क्रोशमात्रा च वर्षन्ति क्रोशार्धादपि वा पुनः पर्वताग्रनिदम्बेषु वर्षति च रस्सन्ति च बलाका गर्भदाश्चैव बलाका गर्भधारिणः ब्रह्मजानाम ते मेखा ब्रह्मनिश्वाससम्भवाः ते हि विद्युद्गुणोपे दास्तनयित्नुप्रियस्वनाः तेषां शश्वत्प्रणादेन भूमिस्वाङ्गरुहोद्भवा राज्ञी राज्ञाभिषिकृदेव पुनर्यौवनमश्नुते ते स्वीयं प्रावृणासक्ता जीवितोद्भवा द्वितीयं प्रवकं वायुं मेखा समाश्रिताः एदं योजनमात्रा च साध्यार्था निष्कृतादपि वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्तितः पुष्करा वर्तका नाम ते पक्षचिन्ना ये पर्वतानां मकौजसां कामागानां प्रवृद्धानां भूतानां शिवमिच्छदा पुष्करा नामदेमेका बृंहंस्तयमत्सराः पुष्करा वर्तकास्तेन शब्दिताः नानारूप नानारूपधराश्चैव महाघोरस्वनाश्च ते कल्पान्तवृष्टे स्रष्टारसंवर्ताग्नेर्नियामकाः वर्षन्त्यदे युगान्तेषु तृतीयास्ते प्रकीर्तिताः अनेकरूपसंस्थानाः पूरयन्तो महीतलम् वायुं पुरा वकन्दस्युराश्रिधा कल्पसाधका यान्यं दस्य दुभिन्नस्य प्राकृतस्या यस्मिन् ब्रह्मा समुत्पन्नश्चदुर्वक्त्र स्वयं प्रभुः तान्ये वाण्डङ्गपालानि सर्वे मेघाः प्रकीर्तिताः तेषामाप्यायनं धूम सर्वेषामविशेषतः तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः गजानां पर्वतानां च मेघानां भोगिभिः सह कुलमेकं पृथग्भूदं योनिरेकाज्जलं स्मृदं पर्जन्यो दिग्गजाश्चैव हे मन्दे शीतसम्भवाः तुषारवृष्टिं वर्षन्ति चेष्ट सस्य प्रवृद्धये षष्ठः परिवहो नाम तेषां वायुरपाश्रयः योऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम् दिव्यामृतजलां पुण्यां त्रुद्धा स्वादिपथे स्थितां तस्या निष्यन्दतो यानि दिग्गजापृथुभिक्करैः शीकरं सम्भ्रमुन्ति निहार इति स स्मृतः दक्षिणेन गिरिर्योसौहेमकूड इति स्मृतः उदग्मवदशैल उत्तरप्रायदक्षिणे पुण्ड्रं नाम नगरं तत्र तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवं तदस्तदा वहो वायुर्हेमवन्दं समुद्वहन् आनयत्यात्मयोगेन सिञ्जमानो महागिरिं हिमवन्दमधिक्रम्यवृष्टिशेषं ततः परम् जिहाभ्येदि ततः विवृद्धये वर्षद्वयं समाख्यादं सस्य विवृद्धये। मेकाश्चाप्यायनं चैव सर्वमेतत् प्रकीर्तितं सूर्य एव दुवृष्टीनां स्रष्टात् सूर्य मूला वै जलं सूरिया प्रवर्तते ध्रुवेणाषिस्त वृष्ट प्रवर्तते ध्रुवेणाधिष्ठि वायुर्वृष्टि संहरते पुनः ग्रहो निसृत्य सूरियाम्डले चरित्वान्देविशत्यर्कं ध्रुवेण समाधिष्ठितं तद सूर्यरथस्याध सनिवेशं निबोधत संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना हिरण्मयेन भगवां तथैव हरिदर्वणा अष्टापदनिबद्धेन षट्प्रकारैकनेमिना चक्रेण भास्वदा सूर्यस्यन्दनेन प्रसर्पदि दशयोजनसाहस्रो विस्ताराया मतस्मृतः द्विगुणोऽस्य रथोपस्तादिशा दण्डः प्रमाणतः शत ब्रह्मण सृष्टो रथोह्यवशे नो अस कांचनो दिव्यो युग पवनगर्हय छंदोजिपैस्तु यतश्चक्रम्त वारुण सेंदन सेहलक्षण सदृशस्तु सह तेनासौ सर्वदेव्योम्नि भास्वदादु दिवाकरः अधैतानि दुसूर्यस्य प्रत्यङ्गानि रथस्यः संवत्सरस्यावयवैकल्पितस्य वाय यथा क्रमम् अहस्तुनाभिसौरस्य एकचक्रस्य वै अराः पञ्चार्तवांस्तस्य नेमि षडृतवस्मृतः रथनीडस्मृदो ह्येषचायने कूबरावुभौ मुहूर्ता बन्धुरास्तस्य रम्याश्चास्य कला स्मृताः तस्य काष्ठा स्मृता कोणा क्षदंड क्षणस्त वै निष्चाषाचा लवा स्मृता धर्म से ध्वज ऊर्धस मुछ्रिद युगाक्षकोडीते तस्थ कामुभ सप्ता वह वमदुर गायत्री चिष्टुप्युष्टु जगदी तथा पंक्ति बृहदी चुष्णिच्वतमी चक्रम्क्षे निबद्धं तो ध्रुवे चाक्ष सहचक्रो भ्रमत्यक्षः सह क्षो भ्रमते ध्रुवः अक्षेण सहचक्रेशो भ्रमते सौ ध्रुवेरितः एवमर्थवशात्तस्य सन्निवेशो रथस्य तथा संयोगभावेन संसिद्धो भासुरो रथः ेनासौ तरनिर्देवो भास्वदा सर्पदे दिवि युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्यदु ध्रुवे तौ भ्राम्यदे रश्मि चक्रयुगयोस्तु वै भ्रमदो मण्डलान्यस्य केचरस्य रथस्य तु युगाक्षकोडीते तस्य दक्षिणे स्यन्दनस्य हि ध्रुवेण प्रगृहीते वैविचक्रमतुरक्षवद भ्रमं तमनुगच्छेतां ध्रुवं रश्मीदुतावुभौ युगाक्षकोडिस्तत्तस्य रश्मिभिस्यनस्य तु कीलासक्ता सर्वदो दिश्यं। सर्वतो दिशं ह्रस्तस्तस्य रश्मी तु वर्धदे दक्षिणे चैव भ्रमदो मण्डलानि युगाक्षकोटिसम्बद्धौ रश्मी द्वौ स्यन्दनस्यदु ध्रुवेण प्रगृहीतौ वै तौ रश्मी न यदो रविम् आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ तदा सोऽभ्यन्तरे सूर्यो भ्रमदे मण्डलानि अशीतिर्मण्डलशदं काष्ठयोरं तरं स्मृतं ध्रुवेणमुच्यमानाभ्यां रश्मिभ्यां पुनरेवतु तथैव बाह्यतः सूर्यो भ्रमदे मण्डलानि तु उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्कपादे देवग्रहानुकीर्तनं नाम द्वाविंशतितमोऽध्यायः ओ